अथ द्वादशोऽध्यायः वैशम्पायन उवाच अथापरो दृश्यत पाण्डवप्रभुर्विराटराजं तरसा समेवान् समापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिवसूर्यमण्डलम् सवैहयानीक्षततांस्ततस्ततः सवै समीक्षमाणं सददर्शमस्य राट् ततो ब्रवीताननुगान्नरेश्वरः कुतो यमायाति नरोपमरोपमः सवै हयानैक्षततांसतस्ततः समीक्षमाणं सददर्शमत्स्यराट् ततो ब्रवीत्ता ननुगान्नरेश्वरः कुतोऽयमायाति नरोमरोपमः स्वयं हयानीक्षति मामकान्दृढं ध्रुवं हयज्ञो भविता विचक्षणः प्रवेश्यतामेष समीपमाशु विभाति वीरो हि यथामरस्तथा अभ्येत्य राजानममित्रः ब्रवीज्जयोऽस्तु मे पार्थिव भद्रमस्तु हयेषु युक्तोऽनुपसंमतः सदा तवाश्वसूतो निपुणो भवाम्यहं विराट उवाच ददामि यानानि धनं निवेशनम् अमाश्वसूतो भवितुं तुमर्हसि कुतोऽसि कस्यासि कथं त्वमागतः प्रभ्रूहि शिल्पं तव विद्यते चेत् विराट उवाच ददामि धनं निवेशनम् अमाश्वसूतो भवितुं तुमर्हसि कुतोऽसि कस्यासि कथं त्वमागतप्रब्रूहि शिल्पं तव विद्यते चेत् नकुल उवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः दीनाहमश्वेषु पुरा नियुक्तः शत्रुकर्षना अश्वानाम् प्रकृतिं वेद्मि विनयम् चापि सर्वशः दुष्टानां प्रतिपत्तिं चाकस्मञ्चिकित्सितम् न कातरं स्यान्मम जातु वाहनं न मेति पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामदः पठन्तरे मातलिरिव देवपतेर्दशरथनुपतेर्समित्रैव यन्त सुमः इव जामदग्ने स्थैव तव शिक्षयाम्यश्वान् युधिष्ठिरस्य राजेन्द्रानरराजस्य शासनात् शतसहस्रकोटीनामश्वानामस्मि रक्षिता पठन्तरितु विराट उवाच यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै ये उवाच यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य ये चापि केचिन्ममबी योजकास्त्वदाश्रयास्सारथयश्च सन्तु इदं तवेष्टं यदि वै सुरोपमा यत्ते प्रसमीक्षितुं वसु न तेन रूपं हयकर्म विद्यते प्रभासि राजेव हि सम्मतो मम युधिष्ठिरस्येव हि दर्शनेन मे समं सवेदं प्रियमत्र दर्शनं कथं तु वने वसत्यनिन्द्यो रमते च उवाच तथा स गन्धर्ववरोपमो युवा विराटराज्ञामुदितेन पूजितः न चैन मन्येऽपि विदुः कथञ्चना प्रियाभिरामं विचरन्त मन्तरा एवं हि मत्स्ये न्यवसन्त पाण्डवा यथा प्रतिज्ञाभिरमोघदर्शनाः अज्ञातशर्यां विचरन् समाहिताः समुद्रनेमीपतयोति दुःखिताः